अथैकोनषष्टितमः सर्गः तवाक्यम् राजानं राजानम् कृपया कृशिकात्मजः अब्रवीन् मधुरम् वाक्यम् साक्षा चण्डालताम् गतम् इक्ष्वाको स्वागतं वत्स जानामि त्वाम् सुधार्मिकम् प्रदास्यामि मा भैषीर्नृपपुङ्गवा अहमामन्त्रये सर्वान् महर्षीन् पुण्यकर्मणः यज्ञसाह्यकरान् राजम्स्ततो यक्ष्यसि निर्वृतः गुरुशापकृतम् रूपम् यदि दन्त्वयि वर्तते अनेन सह रूपेण स शरीरो गमिष्यसि हस्तप्राप्तमहम् मन्ये कौशिकमागम्य शरण्यम् शरणागतः एवमुक्त्वा महातेजाः पुत्रान् परमधार्मिकान् यादिदेशमहाप्राज्ञा यज्ञसम्भारकारणात् सर्वान् शिष्यान् समाहूय वाक्यमेतदुवाचः सर्वान् ऋषीन् तस्य तद्वचनम् श्रुत्वा दिशो जग्मुस्तदाद्यया आजग्मुरथदेशेभ्यः सर्वेभ्यो ब्रह्मवादिनः ते च शिष्याः समागम्य मुनिम् ज्वलिततेजसम् ऊचुश्च वचनम् ब्रह्मवादिनाम् श्रुत्वा ते वचनम् सर्वे समायाम् तिद्विजातयः सर्वदेशेषु चागच्छन् वर्जयित्वा महोदयम् वासिष्ठम् यच्छतम् सर्वम् क्रोधपर्याकुलाक्षरम् यथाह वचनम् सर्वम् शृणुत्वम् मुनिपुङ्ग वा क्षत्रियो याजको यस्य चण्डालस्य विशेषतः कथम् सदसि भोक्तारो हविस्तस्य सुरर्षयः ब्राह्मणा वा महात्मानो भुक्त्वा चाण्डालभोजनम् कथम् स्वर्गम् गमिष्यन्ति विश्वामित्रेण पालिताः एतद्वचन नैष्ठुर्यमूचुः संरक्तलोचनाः वासिष्ठा मुनिशार्दूल सर्वे सह महोदयाः तेषाम् तद्वचनम् श्रुत्वा सर्वेषाम् मुनिपुङ्गवः क्रोधसंरक्तनयनः सरोषमिदमब्रवीत् यद्दूषयन्त्यदुष्टम् माम् तप उग्रम् समास्थितम् भस्मीभूता भविष्यन्ति न अद्य काल ते कालपाशेन नीता वैव स्वतक्षयम् सप्तजातिशतान्येव मृतपाः सम्भवन्तु ते स्वमाम् सनियताहारामुष्टिका नाम निर्घृणाः महोदयश्च दुर्बुद्धिर्माम दूष्यम् ह्यदूषयत् गमिष्यति प्राणातिपातनिरतो निरनुक्रोशताम् दीर्घकालम् मम क्रोधात् दुर्गतिम् वर्तयिष्यति एतावदुक्त्वा वचनम् विश्वामित्रो महातपाः विररामहातेजा ऋषिमध्ये महामुनिः इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनषष्टितमः